अयुध्यमानमात्मानम् मन्त्रिणम् पुरुषर्षभौ अक्षौहिणीम् वा सैन्यस्य कस्य किं वा ददाम्यहम् वव्रे दुर्योधनः सैन्यम् मन्दात्मा यत्र दुर्मतिः अयुध्यमानम् वव्रे कृष्णम् धनञ्जयः मद्रराजम् च राजानमायान्तम् पाण्डवान्प्रति उपहारैर्वञ्चयित्वा वर्त्मन्येव सुयोधनः वरदन्तम् वरं वव्रे साहाय्यम् क्रियताम् मम शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान् शान्तिपूर्वम् चाकथयद्यत्रेन्द्रविजयम् नृपः पुरोहितप्रेषणम् च पाण्डवे कौरवान्प्रति वैचित्र्यवीर्यस्य वचः समादाय पुरोधसः तथेन्द्रविजयम् चापि यानम् चैव पुरोधसः सञ्जयम् प्रेषयामास शमार्थी पाण्डवान् प्रति यत्र दूतम् महाराजो धृतराष्ट्रः श्रुत्वा च पाण्डवान् यत्र वासुदेव पुरोगमान् प्रजागरः धृतराष्ट्रस्य चिन्तया विदुरो यत्र वाक्यानि विचित्राणि हितानि च श्रावयामास राजानम् धृतराष्ट्रम् वनीषिणम् तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् मनस्तापान्वितो राजा श्रावितः शोकलालसः प्रभाते राजसमितौ सञ्जयो यत्र वा विभो ऐकात्म्यम् वा सुदेवस्य प्रोक्तवानर्जुनस्य च यत्र कृष्णोदयापन्नः सन्धिमिच्छन् महामतिः स्वयमागाच्छमम् कर्तुम् नगरम् नागसाह्वयम् प्रत्याख्यानम् च कृष्णस्य राज्ञा दुर्योधनेन वै शमार्थे याचमानस्य पक्षयोरुभयोर्हितम् दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम् वरान्वेषणमत्रैव मातलेश्च महात्मनः महर्षेश्चापि चरितम् कथितम् गालवस्य वै विदुलायाश्च पुत्रस्य प्रोक्तम् चाप्यनुशासनम् कर्णदुर्योधनादीनाम् दुष्टम् विज्ञाय मन्त्रितम् योगेश्वरत्वम् कृष्णेन यत्र राज्ञाम् प्रदर्शितम् रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः उपायपूर्वम् शौटीर्यात् प्रत्याख्यातश्च तेन सह आगम्यहास्ति पांडवा सर्व्यातवा त वचनम शुवा मंत्रि यंग्राक सर्व सज्ज्रुह परु निर्याता न्व रथ दि नगरास्पुरा बल सख्याच